श्रीमद्भागवत् महापुराणम् एकादशिस्कन्ध एकोनविंशोऽध्यायः मदर्थेऽर्थ परित्यागो भोगस्य च सुखस्य च इष्टं दत्तं हुतं जप्तं मदर्थं यद्व्रतं तपः एवं धर्मैर्मनुष्याणाम् उद्धवात्मनिवेदिनाम् मयि सञ्जायते भक्ति को न्योऽर्थो श्यावम्वशिष्यते यदात्मन्यर्पितं चित्तं शान्तं सत्त्वोपमृषितं धर्मं ज्ञानं च वैराग्यम् ऐश्वर्यं चाभिपद्यते यदर्पितं तद्विकल्पे इन्द्रियैपरिधावते रजस्वनं चासनिष्ठं चित्तं विद्धि धर्मो मद्भक्तिकृत्प्रोक्तो ज्ञानम् चैकात्मदर्शनम् गुणेश्वसङ्गो वैराग्यम् ऐश्वर्यम् चाणिमादयः उद्धौ उवाच यमम् कतिविध प्रोक्तो निारिकर्षण कषम कोदमः कृष्ण काचितेक्षाधिति प्रभो किं दानम् किं तपः शौर्यं किं सत्यमृतमुच्यते कश्चाग किं धनम् चेष्टम् को यज्ञ का च दक्षिणा पुंस कृस्मिन् वरम् श्रीमन् भगोलाभश्च केशव का विद्याही पराकाशी किं सुखम् दुःखमेव च कपण्डितः कश्च मूर्खः क पन्था उत्पथश्च क्व स्वर्गो नरकः क स्वेत् को बन्धो नृत गृहम् क आर्झ्य को दरिद्रो वा कृपण क ईश्वरः एतान् प्रश्नान् मम ब्रूहि विपरीतास्य सत्पते श्रीभगवानुवाच अहिंसा सत्यमस्तेयम् असङ्गोढीरसञ्चयः आस्तित्यम् ब्रह्मचर्यम् च मौनम् स्थैर्यम् समाक्षमाभयम् शौचम् जपस्तपो हेमः श्रद्धातिथ्यम् अदर्शनम् तीर्थाटनम् परार्थे हा तु श्रिराचार्यसेवनम् एते यमास नियमाम् उभयोर्द्वादश स्मृताः पुंसामुपासितास्तात् यथा कामम् दुजन्तिः समोमन्निष्ठता बुद्धेदम इन्द्रियसंयमः तितेक्षा दुःखसमर्शो जिह्वोपस्थजयोधितिः दण्डन्यास परम् दानम् कामत्यागस्तप स्वभावविजयशौर्यं सत्यं च समदर्शनम् ऋतं च शूणिता वाणी कविभिः परिकीर्तिता कर्म स्वसङ्गमशौचम् त्यागसन्न्यास उच्यते धर्मैष्टम् धनं नीलां जग्योऽहम् भगवत्तमः दक्षिणाज्ञानसन्देश प्राणायाम परं बलम् भगो म ऐश्वरो भावो लाभो मद्भक्तिरुत्तमः विद्यात्मने भिदा कर्मशो। जुगुप्सा क्षीरकर्मसुर्गुणान्नैरपेक्षाद्या सुखं दुःखसुखात्य दुःखं काम सुखापेक्षा पण्डितो बन्धमोक्षवीन् मृको देहाद्यहं बुद्धिः पन्थामन्ये गमः उत्पतञ्चिद्विक्षेप स्वर्गसत्त्वगुणोदयः नरकमुन्नाहो बन्धुर्गुरुरहंसखे गृहम् शरीरम् मानुष्यम् गुणार्जोढ्याढ्य उच्यते दरिद्रो यस्वसन्तुष्ट कृपणो योजितेन्द्रियः गुणेश्वरक्तधीरीशो गुणसङ्गो विपर्ययः एत उद्धवते प्रश्नाः सर्वे साधु निरूपिताः किं वर्णितेन बहुना लक्षणं गुणदोषयोः गुणदोषदिशिर्दोषो गुणस्तुभयवर्जितः इति श्रीमद्भागुते महापुराणे पारहिंसां सहितायाम् एकादशस्कन्धे एकोनविंशोऽध्यायः